कृष्णयजुर्वेदे क्रमपाठे षष्ठकाण्डे द्वितीयः प्रश्नः प्रारम्भः यदुभौ उभौ विमुच्य विमुच्यातिथ्यम् विमुच्येति विमुच्य आदिथ्यम् गृह्णीयात् गृह्णीयाद्यज्ञम् यज्ञं विच्छिन्द्यात् छिन्द्याद्यत् यदुभौ उभाव विमुच्य अभिमुच्येथा अविमुच्येत् विमुच्य यथा अनागताय अनागतायापिथ्यम् अनागताय इत्यनागताय आपिथ्यम् क्रियते क्रियते तादृक् तादृगेव एव तत् तद्विमुक्तः विमुक्तोऽन्यः विमुक्तैतृ अन्यो विमुखान् अविपान् भवति भवत्यविमुक्तः अविमुक्तोऽन्यः अविमुक्तै अन्योथ अथातिथ्यम् आदिथ्यं गृह्णादि गृह्णाति यज्ञस्य यज्ञस्य सन्तत्यै सन्तत्यै पत्नीः सन्तत्यादिः पत्न्यवारभते अन्वारभते पत्नीः अन्वारभत इत्यनु आरभते पत्नीः इति पारेणह्यस्य पारेणह्यस्यैशे पारेणह्यस्येति पारेणह्यस्य ईशे पत्न्या पत्न्यैवा एवानुमतम् अनुमतन्निः अनुमतमित्यनो नि, अनु मतम् निर्वपदि वपदि यद् यद्वै वै पत्नी पत्नी यज्ञस्य करोति करोति मिथुनम् मिथुनम् तत् तदथो अथ्याः तथो पत्न्या एवैष एष यज्ञस्य यज्ञस्य अन्वारम्भः अन्वारम्भो नवच्छत्यै अन्वारम्भ इत्यनो आरम्भः अनवच्छत्यै यावद्भिः अनवच्छित्या यावद्भिर्ति यावद्भिः वै राजा राजानुचरैः अनुचरैरागच्छति अनुचरैरित्यनुचरैः आगच्छति सर्वेभ्यः आगच्छतीत्या आगच्छति सर्वेभ्यो वै वै तेभ्यः तेभ्यः आतिथ्यम् आतिथ्यम् क्रियते क्रियते छन्दागुंसि छन्दागुंसि खलु खलु वै वै सोमस्य सोमस्य राज्ञः राज्ञानुचराणि अनुचराण्यग्नेः अनुचराणि अनुचराणि अर्णेनातिथ्यम् आतिथ्यमसि असि विष्णवे विष्णवे त्वा द्वेति इत्याह आह गायत्र्यै गायत्र्या एव एवैतेन एतेन करोति करोति सोमस्य सोमस्यातिथ्यम् आदिथ्यमसि असि विष्णवे विष्णवे त्वा द्वेति इत्याह आह तिष्टुभेः तिष्टुभयेव एवैतेन करोति करोतिथेः अपि तेनातिथ्यम् विष्णवे विष्णवे त्वा त्वेरि इत्याह जगत्यै जगत्या एवैतेन एतेन करोति करोत्यग्नये अग्नये त्वा रायस्पोषदावन्ने रायस्पोषदावन्ने विष्णवे रायस्पोषदावन्ने रायस्पोषादावन्नेः विष्णवे त्वा इत्याह आह अनुष्टुभे अनुष्टुभ अनुष्टुभैत्यमस्तु एवैतेन एतेन करोति करोति श्येनाय श्यनाय त्वा त्वा सोमभृतेः सोमभृते विष्णवे सोमभृतैति सोमाभृतेः विष्णवे त्वाह आह गायत्र्यै गायत्र्या एव एवैतेन एतेन करोति करोति पञ्च पञ्चकृत्वा गृह्णाति गृह्णादि पञ्चा अक्षरा पञ्चाक्षरा वृङ्क्तिः पञ्चाक्षरे इति पञ्चाक्षराः वृन्दिस्पाण्डः पाण्डो यज्ञः यज्ञो यज्ञम् यज्ञमेव एताव अपवृन्धे वृन्धे ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिने इति ब्रह्मवादिनः वदन्ति कस्मात् कस्मात् सत्याद् गायत्र्यै गायत्र्या उभयः उभय आदित्यस्य आदित्यस्य क्रियते क्रियत इति यत् यदेव अदः <Sess> सोम् स्वमा आहरत् अहरत्तस्मात् तस्मात् गायत्र्यै गायत्र्या उभयतः उभयतः आदिथ्यस्य आदिथ्यस्य क्रियते पुरस्तात् पुरस्ताच्च चोपरिष्टात् उपरिष्टाच्च शिरः शिरो वै वा एतद्यज्ञस्य यज्ञस्य यत् यदादिथ्यम् आदिथ्यम् नवकपालः नवकपालः पुरोडाशः नवकपालयद् नवकपालः पुरोडाशो भवति भवति तस्मात् तस्मान्नवधा नवधा शिरः नमधेति न मधा शिरो विष्यूतम् विष्यूतम् नमकपालः विष्यूतमिति वेस्यूतम् पुरोडाशः नमकपाल इति पुरोडाशो भवति भवति ते ते त्रयः त्रयस्त्रिकपालाः त्रिकपालास्त्रिकृताः इति त्रिकपालाः त्रिवृता स्तोमेन त्रिवृतेति त्रिवृताः स्तोमेन संमिताः संमितास्तेजः संहिता इति संमितः तेजस्त्रिवृत् त्रिवृत्तेजः त्रिवृत्ति त्रिवृत् एव यज्ञस्य यज्ञस्य शीर्षम् शीर्षम् दधाति दधाति नमकपालः नमकपालः प्रोडाशः नमकपाल इति नवकपालः प्रोडाशो भवति भवति ते ते त्रयः त्रयस्य कपालाः त्रिकपालास्त्रिवृताः त्रिगपालाः इति त्रिकपालाः त्रिवृताः प्राणेन त्रिवृतेरिति त्रिवृताः प्राणेन संहिताः प्राणेनेति प्राणेन संहितास्त्रिवृत् संहिता इति संहिताः त्रिभुद्वै त्रिभुजि त्रिवृत् वै प्राणः प्राणस्त्रिवृतम् प्राण इति प्राणः त्रिभृतमेव त्रिभुदृतम् एव प्राणम् प्राणमभिपूर्वम् प्राणमिति प्राणम् अभिपूर्वम् यज्ञस्य अभिपूर्वमित्यभिपूर्वम् शीर्षन् शीर्षम् दधाति दधाति प्रदापतेः प्रजापतेर्वै प्रजापतेर्विप्रदापेः एतानि एतानि पक्ष्माणि लक्ष्माणि अश्वबाला यै ईक्ष्वी अश्वबाला इत्यश्वबालाः ऐक्षविरष्टिः ऐक्ष्वी इत्य ईक्षवी तिरश्चि यद् तिरश्चि इति तिरष्टिः यदाश्वबालः आश्वबालः प्रस्तरः आश्वबाल इत्याश्वबालः प्रस्तरो भवति प्रस्तर इति प्रास्तरः भवत्यैक्षवि ऐक्षवी तिरष्टिः ऐक्ष्वी इत्ययीक्ष्वी तिरष्टिः प्रजापतेः तिरश्चि इति तिरष्टिः प्रजापतेरेव प्रजापतेर्विप्रजापेः चक्षुरु च सम, देवाः देवा वै देवा वैयाः या आहुतीः आहुतीरजुहुः अजभवैर्याहुतिः अजहवस्ताः ता असुराः असुरा निष्कावम् निष्कावमादन् आदन्ते ते देवाः देवाः देवा कार्श्वर्यम् कार्श्वर्यमपश्यन् अपश्यन् कर्मण्यः कर्मण्यो वै एनेन कुर्वीत कुर्वीतेति ते कार्श्वर्यमयान् कार्श्वर्यमयान् परिधीन् कार्श्वर्यमयानिति कार्श्वर्य परिधीन कुर्वत परिधेनति परिधेन कुर्वत तैः तैर्वै वै ते ते रक्षापुंसि रक्षास्य प अपाघ्त अघतैर् यत्कार्श्वर्यमयाः कार्श्वर्यमयाः परिधयः कार्श्वर्यमया इति कार्श्वर्यामयाः परिधयो भवन्ति परिधय परिधयः भवन्ति रक्षसाम् रक्षसामपहत्यै अपहत्यै सम् अपहत्या इत्यपाहत्यै सर्गस्पर्शयति स्पर्शयति रक्षसाम् रक्षसामनन्वपचाराय अनन्वपचाराय न अनन्वपचारायत्यनमोऽपचाराय न पुरस्तावात् पुरस्तात्परि परिविभाति न हत्यादित्यः आदित्यो येव एवोर्ध्वन् उद्यन् पुरस्तात् उद्युदयन् पुरस्ताद्रक्षागुंसि रक्षाकस्यपहन्ति अपहन्त्यूर्ध्वे अपहन्ति इत्यपहन्वि ऊर्ध्वे समिधौ ऊर्ध्वे इत्यूर्ध्वे समिधा वा समिधाविधि दधाति च परिष्टाद्परिष्टादेव एव रक्षागुंसि रक्षाकस्य प अपहन्ति अन्य ईदुषा ईदुषान्याम् अन्याम् तूष्णीम् तूष्णीमन्याम् अन्याम् व्यथनत्वाय धनत्वायद्वे व्यथनत्वादे द्वे आ द्वे यद्वे आदधाति दधा द्विपाद्विपाद्यचमानः द्विपादिति द्विपाद् यजमानः प्रतिष्ठत्यै प्रतिष्ठ्यत्यै ब्रह्मवादिनः प्रतिष्ठ्यत्यायै प्रतिष्ठित्यै ब्रह्मवादिनो वदन्त्यै ब्रह्मवादिने इति ब्रह्मावादिनः एतौ सोमः सोमश्च च कथा कथा सोमाय सोमायातिथ्यम् आदिथ्यम् क्रियते क्रियतेन नाग्नये अग्नय इति यत् यदग्नौ अग्नावग्निम् अग्निम् अधित्वा अजित्वा प्रहरति प्रहरति तेन प्रहरतीति प्रहरति तेनैव एवाग्नेये अग्नय क्रियते क्रियतेथो अथो खलु अथो इत्यथो खल्वाहुः आहोरग्निः अग्निः देवता इति यत् यद्धविः कविरासाद्य आसाद्याग्निम् आसाद्येत्या आसाद्य अग्निम् मन्थति मन्थति हव्याय अव्यायैव एवासन्नाय आसन्नाय सर्वाः आसन्नायेत्यासन्नाय सर्वा देवताः देवता जनयति जनयतीति जनयति देवासुराः संयत्ताः देवासुरा इति देवासुराः संयत्ता आसन् संयत्ता इति सञ्क्ताः आसन्ते ते देवाः देवामिथः मिथो विप्रियाः विप्रिया आसन् विप्रिया इति विप्रियः आसन्तेन्यः अन्यो अन्यस्मै ज्यैष्ठ्याय ज्यैष्ठ्यायाधिष्ठमानाः अधिष्ठमानाः पञ्चधा पञ्चधा वि पञ्चाधा व्यक्रामन् अक्रामन्नग्निः अद्ने, अग्निर्वसुभिः वसुभिर्सोमः वसुभिर्ति वसुभिः सोमो रुद्रैः रुद्रैरिन्द्रः इन्द्रो मरुद्भिः मरुद्भिर्वरुणः मरुद्भिरिति मरुद्रिभिः वरुण आदित्यैः आदित्यैर्बृहस्पतिः बृहस्पतिभिश्वैः विश्वैर्देवैः देवैस्ते अनन्य नासुरेभ्यः असुरेभ्यो वै वा इदम् इदम् भ्रातृव्येभ्यः भ्रातृव्येभ्यो रध्यामः तद्ध्यामो यत् यन्मितः नितो विप्रियाः विप्रियाः स्मः विप्रिया इति विप्रियाः स्मो याः या नः न इमाः इमाः प्रियाः प्रियास्तनवः तन्मस्ताः ताः समवद्यामहै समवद्यामहै ताभ्यः समवद्यामः इति समवद्यामहै ताभ्यः सह सनिः निर्विक्षात् ऋच्छाद्यः यो नः नः प्रथमः प्रथमोऽन्यः अन्योऽन्यस्मै अन्यस्मै दृह्यात् यदि तस्मात् तस्माद्यः यः सदालोनत्रिणाम् सदानोनत्रिणाम् प्रथमः सदानोनत्रिणामिति सदानोनत्रिणाम् प्रथमो दृह्यति दृह्यति सः स आर्तिम् आर्तिमा यत् यत्तालोनत्रम् तानोलप्तम् समवद्यति तानोलप्तमिति तानो मनत्रम् समवद्युति भ्रातृव्याभिभूति समवद्यति इति समवद्यति भ्रातृव्याभिभूत्यै भवति भ्रातृव्याभिभूत्या इति भ्रातृव्याभिभूक्त्यै भवत्यात्मना आत्मना परा पराहस्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवति पञ्च पञ्चकृत्वः कृत्वो वा अवद्यति इति पञ्चधा पञ्चधा हि पञ्चथेति पञ्चधा हि ते तत्समवाद्यन्त समवाद्यन्त अथो पञ्चाक्षरा पञ्चाक्षरा वन्दिः पञ्चाक्षरेति पञ्चाक्षरः वन्दिष्पान्तः पान्तो यज्ञः यज्ञो यज्ञं यज्ञमेव एवावृन्धे रन्धावृतये आवतये द्वा आपतयेत्यावृतये त्वा गृह्णामि गृह्णामि इति इत्याह आणः प्राणो वै प्राण प्राणः वा आपदिः आपतिः प्राणम् आपतिरित्यापतिः प्राणमेव प्राणमिति प्राणम् एव प्रीणादि प्रीणादि परिपतये परिपतयै परिपतयैति परीपतये इत्याह आह मनः मनो वै वै परिपतिः परिपतिर्मनः परिपतिरिति परीपतिः मन एव इत्याह आह तनुवः हि ते वाद्यन्दा समवाद्यन्तशाक्वराय समवाद्यन्तेति नवाद्यन्द्रवरायेति इत्याह आहशक्यैः शक्यैः हिरे तेताः ताः समवाद्यन्ध समवाद्यन्तशक्मन् समवाद्यन्तेति सं नवाद्यन्दा शक्मन्नोदिष्ठाय ओजिष्ठायेति इत्याह आहोजिष्ठम् ओजिष्ठकं हि हिरे ते तत् तदात्मनः त्मनः समवाद्यन्त समवाद्यन्तानादृष्टम् समवाद्यन्ते समवाद्यन्त अनादृष्टमसि अनादृष्टमित्यनादृष्टम् अस्यादृश्यम् अनादृश्यमिति अनादृश्यमित्यनादृश्यम् इत्याह आहानादृष्टम् अनादृष्टगं हि अनादृष्टमित्यनादृष्टम् द्वेत एतदनादृश्यम् अनादृश्यम् देवानाम् अनादृश्यमित्यनादृश्यम् देवानाम ओजः ओज इति इत्याह आहदेवानाम् देवानागुम् हि द्वेदत् एतदोजः ओजोऽभिषस्तिपाः अभिषस्तिपाः अनभिषस्तेऽन्यम् अभिषस्तिपा इत्यभिषस्तीपाः अनभिषस्तेऽन्यमिति इत्याह आहाभिषस्तिपाः अभिषस्तिपाहि अभिषस्तिपा इत्यभिषस्तीपाः ह्येतत् एतदनभिषस्तेऽन्यम् अनभिषस्तेन्यमनु अनभिषस्तेऽन्यमित्यनभे मे दीक्षाम् दीक्षाम् दीक्षापतिः दीक्षापतिर्मण्यताम् दीक्षापतिरिदीक्षावतिः <स्पेरी> इत्याह आह यथा यजुः यथायजुरेव यथा यजुरिति यथा यजुः एवैतत् एतद्घृतम् घृतम् वै वै देवाः देवावज्रम् वज्रम् कृत्वा कृत्वा सोम् सोमङ्घ्रन् अघ्नन्नन्तिकम् अन्तिकमिव इव खलु खलु वै वा अस्य अस्यैतत् एतत् चलन्ति चलन्ति यत् यत् तानूमत्रेण तानूमत्रेण प्रचलन्ति तानूनत्रेण इति तानूनत्रेण प्रचलन्ति प्रचलन्ति इति प्रचलन्ति लघुं सुंशुस्ते रघुंशुलुंशु इत्यघुंशुः ते देव सोम सोमा आप्यायताम् प्यायतामिति इत्याहेवास्य अस्यापवायते अपवायते यत् यन्मीयते नीयते तत् तदेव एवास्य अस्यैतेन एतेना आप्याययति प्यायेत्या आ तुभ्यम् तुभ्यमिन्द्रः इन्द्रप्यायता प्यायता वा आ इन्द्राय प्यायश्व व्यायस्येति इत्याह आहोभौ उभावेव एवेन्द्रम् इन्द्रम् च सोमम् च आप्याययति प्यायेत्या आप्यायय प्यायय सखीन् सखीनिन्संज्ञा सञ्ज्ञा मेधया मेधयेति इत्याह आहर्त्विजः ऋत्विजो वै त्वा अस्य अस्य सखायः सखायस्तान् तानेव एवा आप्यायेति प्यायेति स्वस्ति स्वस्ति ते ते देव देव सोम सोम सुत्यां सुत्यामशीय शीयेति इत्याह आहाशिषम् आशिषमेव आशिषमित्या आशिषम् एवैताम् एतामा आशास्ते शास्ते प्र वै वा एते एते यस्माद् अस्माल्लोकात् लोकात् श्रवन्ते श्रवन्ते ये ये सोमम् सोमाप्याययन्ति आप्याययन्त्यन्तरिक्षदेवत्यः आप्याययन्ति इत्या आप्याययन्ति अन्तरिक्षदेवत्यो हि अन्तरिक्षदेवत्य इत्यन्तरिक्षादेवत्यः हि सोमः सोमः आप्यायितः आप्यायियेष्टः आप्यायित इत्याप्यायितः येष्टारायः प्रायः प्र प्रेषे इशे भगाय भगायेति इत्याह आह द्यावापृथिवीभ्याम् द्यावापृथिवीभ्यामेव द्यावापृथिवीभ्यामिति द्यावाः पृथिवीभ्याम् एव नमस्कृत्य नमस्कृत्यास्मिन् नमस्कृत्येति नमः कृत्य अस्मिन् लोके लोके प्रति प्रतिष्ठन्ति तिष्ठन्ति देवासुराः देवासुराः संयत्ताः देवासुराः इति देवासुराः संयत्ताः आसन् संयत्ता इति सायत्ताः आसन् ते देवाः देवा विभ्यतः अग्निम् प्र प्राविशन् प्रविशन् तस्मात् तस्मादाहुः आहुरग्निः अग्निः सर्वाः देवताः देवता इति ते ते अग्निम् एववरोधम् वरोधम् कृत्वा कृत्वा असुरान् असुरानभि अभ्यभवन् अभवन्नग्निम् अग्निमिव इव खलु खलु वै वा एषः एष प्रविशति विशति यः यो वान्दरदीक्षाम् अवान्दरदीक्षामुपैति अवान्तरदीक्षामित्यवान्दरदीक्षाम् उपैति भ्रातृव्याभिभूत्यै उपैति इत्युपायति भ्रातृव्याभिभूत्यै भवति भ्रातृव्याभिभूत्या भ्रातृव्याभिभूतिः भवत्यात्मनाः आत्मनापराः अस्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवत्यात्मानम् आत्मानमेव एव दीक्षया दीक्षया पाति पाति प्रजाम् प्रजामवान्दरदीक्षया प्रजामिति प्राजा अवान्तरदीक्षया संतराम् अवान्तरदीक्षयेत्यवान्दरा दीक्षया सन्तराम् मेखलाम् सन्तरामिति संतराम् मेखलाकम् समायच्छते समायच्छते प्रजा समायच्छत इति समायच्छते प्रजा हि या आत्मनः आत्मनोन्तरतरा अन्तरतरा तप्तव्रतः अन्तरतरेत्यन्तरातराः तप्तव्रतो भवति तप्तव्रत इति तप्ताव्रतः भवति वदन्ति वदन्तिर्मार्जेते मार्जेते निः निर्हि अग्निः अग्निः शीतेन शीतेन वायति वायति समिध्यै समिध्यैया समिध्या इति सां विध्यै या ते ते अग्नेः अग्निरुद्रिया रुद्रिया तनोः तनोरिति निर्याः आहस्वयाः स्वयैव एवैनत् एनद्देवतया देवतया व्रतयति रजयति सयोनित्वाय श्रयोनित्वाय शान्त्यै श्रयोनित्वाय सयोनित्वाय शान्त्या इति शान्त्यै तेषाम् असुराणाम् असुराणाम् तिस्रः तिस्रः पुरः पुर आसन् आसन् यस्मै अयस्मै्यवमा अवमाथ अथ अजताथ अथ हरिणीताः ता देवाजेतुम् जेतुर्नाशक्नुवन् अशक्नुवन्ताः ता उपसदाः उपसदैव उपसदेत्युपासदाः एवादिगीषन् अधिगीषन् तस्मात् तस्मादाहो आहुर्यः यश्च चैवम् एवम् वेद वेदयः यश्च च नोपसदाः उपसदावै उपसदेत्युपासदाः वै महापुरम् महापुरम् जयन्ति महापुरमिति महापुरम् जयन्तीति इति ते ैष इषुसम् समस्कुर्वत अकुर्वताग्निम् अग्निमनेकम् अनेकुम् विष्णुम् देजनम् ते जनन् दे तेब्रुवन् अब्रुवन् कः क इमा इमामशिष्यति असिष्यतीति इति रुद्रः रुद्रयति इत्यब्रुवन् अब्रुवन् रुद्रः रुद्रो वै क्रूरः सः सोऽस्य तु अस्य त्विति इति सः सोऽब्रवीत् अहम् अहमेव एव पशूनाम् पशूनामधिपतिः अधिपतिरसानि अधिपतिरित्यधिपतिः रसानीति अधि इति तस्मात् तस्मात् रुद्रः रुद्रः पशूनाम् पशूनामधिपतिः अधिपतिस्ताम् अधि अधिपतिरित्यधिपतिः ताकम् रुद्रः रुद्रो वा तिस्रः पुरः पुरोभित्वा भित्रयिभ्यः एभ्यो लोकेभ्यः लोकेभ्योऽसुरान् असुरान् प्रणुदत अनुदत यद् यदुपसदः उपसद उपसद्यन्तेः उपसद इत्युपासदः उपसद्यन्ते भ्रातृव्यपराणत्यै उपसद्यन्त इत्युपासद्यन्तेः भ्रातृव्यपराणत्यैन भ्रातृव्यपराणत्यादि भ्रातृव्यापराणत्यै नान्याम् अन्यामाहुलिम् आहुलिम् पुरस्ताद् आहुलमित्याहुलम् पुरस्ताज्जुहुयाद् जुहुयाद्यत् यदन्याम् अन्यामाहुलिम् आहुलम् पुरस्ताद् आहुतिमित्याहुतिम् पुरस्ताज्जुभुयाद् अभूयादन्यद् अन्यन्मुखम् मुखम् कुर्यात् कुर्यात् सर्वेण सर्वेणाघारम् आघारमा आघारमित्याहारम् आघारयति घारयति यज्ञस्य यज्ञस्य प्रज्ञाद्यै प्रज्ञाद्यै प्राग् प्रज्ञात्यादिप्राज्ञाद्यः परा अतिक्रम्य अतिक्रम्य जिहोति अतिक्रम्येत्यतिक्रम्य जुहोति पराचः पराचयैव एवैभ्यः एभ्यो लोकेभ्यः लोकेभ्यो यजमानः यजमानो भ्रातृव्यान् भ्रातृव्यान्प्रणदते नृदते पुनः पुनरत्याक्रम्य अत्याक्रम्योपसतम् अत्याक्रम्येत्य आक्रम्य उपसदम् जुहोति उपसदमित्युपासदम् जुहोति प्रणद्य प्रणद्यैव प्रणद्येति प्राणद्य एवैभ्यः एभ्यो लोकेभ्यः लोकेभ्यो भ्रातृव्यान् भ्रातृव्यान् धृत्वा धृत्वा भ्रातृव्यलोकम् भ्या भ्रातृव्यलोकमभ्यारोहति भ्रातृव्यलोकमिति भ्रातृव्यालोकम् अभ्यारोहति देवाः अभ्यारोहतीत्यभि आरोहति देवा वै वैयाः यास्प्रातः प्रातरुपसदः उपसर उपासीदन् उपसर इत्युपासदः उपासीदन्नह्णः उपासीदन्य असीदन् अह्नस्ताभिः ताभिरसुरान् असुरान्प्र प्राणदन्तः याः सायं सायं रात्रिये रात्रिये ताभे प्राभिर्यत् यत्सायम् प्रातः सायम् प्रातरुपसदः सायम् प्रातरिति सायम् प्रातः उपसर उपसद्यन्ते उपसद इत्युपासदः उपसद्यन्ते होरात्राभ्याम् उपसद्यन्त इत्युपासद्यन्ते अहोरात्राभ्यामेव अहोरात्राभ्यामित्यहहरात्राभ्याम् एतत् तद्यमानः यजमानो भ्रातृव्यान् भ्रातृव्यान्प्रवृदते मदते याः याः प्रातः प्रातर्याज्याः याज्याः यम् सायम् प्रोळवाक्याः प्रोळवाक्याः कुर्यात् प्रोळवाक्यादिप्रः रोक्याः कुर्याद यातयामत्वाय अयातयामत्वाय तिस्रः अयातयामत्वायेत्यजातयाम त्वाय तिस्र उपसदः उपसद उप उपसद इत्युपासदः उपैति एयः त्रय इमे इमे लोकाः लोका इमान् इमानेव एव लोकान् लोकान् प्रेणादे प्रीणादि षट् षट्साम् सम्पद्यन्ते पद्यन्ते षट् षट् द्वै वा ऋतवः ऋतव ऋतूर् ऋतूरेव एवम् प्रीणादि प्रीणादि द्वादश द्वादशाहीनेः अहीने सोमेः सोम उप उपैति दि, एति द्वादश द्वादश मासाः मासाः संवत्सरः संवत्सरः संवत्सरम् संवत्सर इति संवत्सरमेव संवत्सरमिति संवत्सरम् एव प्रीणादि वीणादि चतुर्विवंशतिः चतुर्विंशतिः सम् चतुर्विंशतिरिति चतुर्विंशतिः सम्पद्यन्ते पद्यन्ते चतुर्विवंशतिः चतुर्विंशतिरर्धमासाः चतुर्विंशतिरिति चतुर्विंशतिः अर्धमासादर्धमासान् अर्धमासा इत्यर्धमासाः अर्धमासानेव अर्धमासान इत्यर्धमासान् एव प्रीणादि वीणात्यारा ग्राम आरा ग्रामान्तरदीक्षाम् आराग्रामित्याग्रामम् अवान्तरदीक्षामुप अवान्तरदीक्षामित्यवान्तरदीक्षाम् प्रेयाद् इयाद्यः यः यह कामयेत कामयेतास्मिन् अस्मिन्मे लोके लोकेऽर्धुकम् अर्धुक्र्यात् स्यादिति इत्येकम् एकमग्रेः अग्रेथ अथ अग्रे द्वौ द्वावथ अथ त्रीथ अथ चतुरः चतुर एषा एषा वै वा आराग्रा आराग्रावान्तरदीक्षा आराग्रेत्याः अग्रः अवान्तरदीक्षास्मिन् अवान्तरदीक्षेत्यवान्तरदीक्षा अस्मिन्नेवस्मै अस्मै लोके लोकेर्धुकम् अर्धुकम् भवति परोवरीयसीम् परोवरीयसीम् अवान्तरदीक्षाम् परोवरीयसीमिति परःसीम् अवान्तरदीक्षामुप अवान्तरदीक्षामित्यवान्तरदीक्षाम् उपेयाद् याद्यः यः कामजेत कामये तामुष्मिन् अमुष्मिन्मे मे लोके लोकेऽर्धुकम् स्यादिति इति चतुरः चतुरोग्रे अग्रेथ अथ त्रीन् त्रीणथ अथ द्वौ एकमेषा एषा वै वै परोवरीयसी परोवरीयस्य वान्दरदीक्षा परोवरीगसीति परः परीरसीः कवान्दरदीक्षामुष्मिन् अवान्दरदीक्षेत्यवान्दरदीक्षा अमुष्मिन्नेव एवास्मैः अस्मै लोके लोकेऽर्धुकम् अर्धुकम् भवति भवतीति भवति स्वर्गम् वै स्वर्गमिति स्वभागम् वा एते एते लोकम् लोकयन्ति उपसदः उपसद उपयन्ति उपसद उपयन्ति तेषाम् उपयन्ते इत्युपादयन्ति तेषां यः य उन्नयते हीयते उन्नयते इत्युर्णयते हीयत एव धनेषि धनेषीति सो उन्नीयम् सोन्नीयमिव सोन्नीयमिति सो उन्नीयम् इवयः यो वै मयि स्वार्थेताम् स्वार्थेतान्यताम् स्वार्थेतामिति स्वार्थायिताम् यथा श्रान्तः श्रान्तो हीयते हीयत उत उत सः निष्ठ्याय सह सह वसति तस्मात् तस्मात् सकृत् सकृदुन्नीज उन्नीजन उन्नीयन्ति नापरम् अपरमुत् उन्नयेत अयेतदध्ना तथ्नोत् उन्नयेत अयेतैतत् एतद्वै ैपशूनाम् पशूनाम् रूपम् रूपम् रूपेण रूपेण इव एव पशून् पशूनव अवरुन्धे रुन्धे यज्ञः यज्ञो देवेभ्यः देवेभ्यो निलायत निलायत विष्णुः विष्णुः रूपम् रूपम् कृत्वा कृत्वा सः सपृथिवीम् पृथिवीम् प्र प्राविशत् अविषत्तम् तम् एवाहस्तान् हस्तान् सगंरभ्य सगंरभ्यैच्छन् सगंभ्येति संरभ्य अयच्छन्दम् तमिन्द्रः इन्द्र उपर्युपरि उपर्युपर्यति उपर्युपरीत्युपरि उपरि अत्यक्रामत् अक्रामत्सः सोऽब्रवीत् अब्रवीत्कः को मायम् अयमुपर्युपरि उपर्युपर्यति उपर्युपरित्युपरि उपरि अत्यक्रमीद् अक्रमेदिति इत्यहम् अहम दुर्गे दुर्गे हंता दुर्ग यजिहो हेति इत्यथा अधकः कस्त्वम् त्वमिति इत्यहम् अहम् दुर्गाद् दुर्गादाहर्ता दुर्गादिलिदहूगाद् दुर्गादा, आहर्तेति आहर्तेत्याहर्ताः इति सः सोऽब्रवीद् अब्रवीद् अब्रवीद दुर्गे दुर्गे वै दुर्गैगे वै हन्ताः हन्तावोचथाः हंदा अबोचा वराह वराहोऽयम् अयम् वाममोषः सप्तानाम् गिरीणाम् गिरीणाम् परस्ताद् परस्ताद् वित्तम् वित्तं वेद्यम् वेद्यसुराणाम् असुराणां विभर्ति विभर्तितम् कञ्जहि दुर्गे दुर्गे हन्ताः दुर्ग हन्तासि असीति इति सः सदर्भपुञ्जीलम् दर्भपुञ्जीलमुद्वृष्य दर्भपुञ्जीलमिति दर्भापुञ्जीलम् सप्त उद्वृह्येद्युदवृह्य सप्तगिरीन् गिरीन् भित्वा भित्वा तम् अहं सोऽब्रवीत् ब्रवीद्दुर्गाद् दुर्गाद्वि दुर्गादिकृतभोगाद् आहर्ता आहर्ता वोचथाः आहर्तेत्याहताः अवोचथा एतम् एतमा आहर हरेति इति तम् तमेयेभ्यः एद्भ्यो यज्ञः यज्ञ एव यज्ञम् यज्ञमा आहरत् अहरद् यत्तत् तद्वित्तम् वित्तम् वेद्यम् वेद्यमसुराणाम् असुराणाम् अविन्दन्त अविन्दन्त तदेकम् एकम् वेद्यै वेद्यैवेदित्वम् वेदित्वमसुराणाम् वेदित्वमिति वेदित्वम् असुराणाम् वै वायं इयम् इयमग्रे अग्र आसीत् आसीद्यावत् यावदासीनः आसीनः परापश्यति परापश्यति तावत् परापश्यतीति दावद तावद्देवानाम् देवानाम् ते ते देवाः एव अब्रुवन् अब्रुवन्नसु अस्त्वेव एव नोऽस्याम् अस्यामपि अपीति कियत् कियद्वः वो दास्यामः दास्यामः इति यावत् यावदियम् एवंसरावृगी सरावृगी त्रिः त्रिः परिक्रामति परिक्रामति तावत् परिक्रामते इति परिक्रामति तावन्नः नो दत्ता दत्तेति इति सः स इन्द्रः इन्द्रः सलावृगे सरावृगे रूपम् कृत्वा कृत्रेमाम् इमाम् त्रिः त्रिः सर्वतः पर्यक्रामत् अक्रामत्तत् तदिमाम् इमामविन्दन्त अविन्दन्त यत् यदि माम् इमामविन्दन्त अविन्दन्तसत् तद्वेद्यैः वेद्यैवेदित्वम् वेदित्वपुंसा वेदित्वमिति वेदि त्वम् सा वै वा इयम् इयकम् सर्वाः सर्वैव एव वेदिः वेदिरे यदि शक्ष्यामि शक्ष्यामीति यदि तु वा अवमाय अवमाय इषन्ते अवमायत्र वा माय इषन्ते त्रिविंशत् पदानि पदानि पश्चात् पश्चात् तिरश्चिः भवति भवति षट्त्रिविंशत् षट्त्रिविंशत् प्राचीः षट्त्रिविंशति षट् त्रिविंशत् प्राची चतुर्विंशतिः चतुर्विंशतिः पुरस्तात् चतुर्विंशतिरि त्रि चतुर्विंशतिः पुरस्तात् तिरश्चिः तिरश्चि दश दश सम्पद्यन्ते पद्यन्ते दशाक्षरः दशाक्षरा विराट् दशाक्षरेति दशा अक्षराः विराडन्नम् विराटिवीलाड् अन्नम् विराट् विराड् विराजाः विराड्जिरीलाड् विराज इव विराजेति विराजाः एवान्नाद्यम् अन्नाद्यमु अन्नाद्यमित्यन्नाद्यम् अवरुन्धे वृन्धवत् वृद्धन्ति हन्त्यत् यदेव एवास्याः अस्या अमेध्यम् अमेध्यम् तत् तदप अपहन्ति हन्त्युत् वृद्धन्ति हन्त्युतस्मात् ओषधयः पराः परा भवन्ति भवन्ति बर्हिः बर्हसृणादि शृणादि तस्मात् तस्मादोषधयः ओषधयः पुनः पुनरा आ भवन्ति भवन्त्युत्तरम् बर्हिषः उत्तरमित्युत्तरम् बहिष उत्तरबरिः उत्तरबर्हसृणादि उत्तरबर्हिरित्युत्तराः शृणादिप्रजाः प्रजा वै प्रजा इति प्राजाः वै उत्तरबर्हिर्यजमानम् उत्तरबर्हिरित्युत्तरा बहिर्यजमानमेव एवायजमानात् अयजमानादुत्तरम् उत्तरम् करोति उत्तरमित्युदुत्तरम् करोति तस्मात् तस्माद्यजमानः यजमानो यजमानात् अयजमानादुत्तरः उत्तरयचिरोत्तरः यद्वै वा अनीशानः अनीशानो भारम् भारमादत्ते आदत्ते वि आदत्ते आदत्ते वि वै वै सः सरिषतेषते यत् यद्वादश द्वादश साह्नस्य सान्हस्योपसदः सान्धस्येति उपसद इत्युपासदः स्युस्तिस्रः तिस्रो हीनस्य अहीनस्य यज्ञस्य यज्ञस्य विलोम विलोम विलोमेति विलोम क्रियेत तिस्रः तिस्र एव एव सान्ह्वस्य सान्हस्योपसदः सान्हस्येति सान्हस्य उपसदो द्वादश उपसद इत्युपासदः द्वादश अहीनस्य यज्ञस्य यज्ञस्य सवीर्यत्वाय सवीर्यत्वायाथो असीर्यत्वादेति सवीर्यत्वाय सलो अथो सलोम अथो इत्युथो असलोम क्रियते सलोमेति स लोम क्रियते वत्सस्य वत्सस्यैकः एकस्तनः सलो हि सह सोऽथ अथैकम् एकव्यस्तनम् व्रतमुप उपैति एत्रिथ अथ द्वौ द्वावथ द्वाव अथ त्रीन् त्रेरथ एतद्वै मयि क्षुरपवि क्षुरपवि नाम क्षुरपवीति क्षुरापवि नाम व्रतम् व्रतयेन न्धातृव्यान् ध्रातृव्यान् मुदते मुदते प्रति प्रतिनिष्यमाणान् निष्यमाणानथो अथो कनीयसा अथो इत्यथो कनीयसैव एव भूयः भूय उप उपैति एति चतुरः चतुरोग्रे अग्रे स्तनान् स्तनान पदमुप उपैति एत्यथ अथ त्रीन् त्रीणथ अथ द्वौ द्वावथ अथैकम् एकमेतत् एतद्वै वै सुजघनम् सुजघन्नाम सुजघनमिति सोऽजघनम् नाम व्रतम् व्रतम् अथोप्र अथो प्रैव एव जायते जायते प्रजया प्रजया पृषुभिः प्रजरे प्राजयः पशुभिर्यवागोः पशुभिरिति पशुभिः यवागोराजन्यस्य राजन्यस्य व्रतम् व्रतम् क्रोरा क्रूरेव यव वै वैयवागोः यवागोः क्रूरः क्रूरैव न राजन्यः राजन्यो वज्रस्य वज्रस्य रूपम् रूपकम् समृद्ध्या आमिक्षाः समृद्ध्या इति समृद्धिः आमिक्षा वैश्यस्य वैश्यस्य भागयज्ञस्य प्रागयज्ञस्य रूपम् रागयज्ञस्य इति रागयज्ञस्य रूपम् वृष्टिः वृष्टिपयः पयो ब्राह्मणस्य ब्राह्मणस्य तेजः तेजो वै वै ब्राह्मणः ब्राह्मणस्तेजः तेजस्पयः पयस्तेजसा तेजसैव एव तेजः तेजस्पयः पय आत्मन् आत्मन्धत्ते धत्तेजोः अथोपयसा अथो वित्त्यसोः पयसा वै वै गर्भावाः वर्धन्ते गर्भः गर्भ इव इव खलु खलु वै वा एषः एष यत् यद्दिक्षितः वीक्षितो यत् यदस्य अस्य पयः व्रतम् व्रतम् भवति भवत्यात्मानम् आत्मानमेव एव तत् वर्धयति त्रिव्रतः त्रिव्रतो वै त्रिव्रत इति त्रिव्रतः वै मनुः मुनरासीत् आसीत् द्विव्रताः विव्रता असुराः विव्रता इति द्विव्रताः असुरा एकव्रताः एकव्रता देवाः एकव्रता इत्येकाव्रताः देवाः प्रातः प्रातर्मध्यम् दिने मध्यम् दिने सायम् सायम् तत् तन्मनोः मनोहर्व्रतम् आसीत् पाकयज्ञस्य पाकयज्ञस्य रूपम् पाकयज्ञस्य इति पाकयज्ञस्य रूपम् पुष्टैः पुष्ट्यैः प्रातः प्रातश्च सायञ्च चासुराणाम् असुराणाम् निर्मध्यम् निर्मध्यम् क्षुतः निर्मध्यमिति मिहे मध्यम् क्षुतो तदस्ते ते पराः पराभवन् अभवन् मध्यम् दिने मध्यम् दिने मध्यरात्रे मध्यरात्रे देवानाम् मध्यरात्र इति मध्यारात्रे देवानान्ततः तदस्ते ते भवन् अभवन् स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति सुवहागम् लोकमायन् यदस्य अस्य मध्यम् दिने मध्यम् दिने मध्यरात्रे मध्यरात्रे व्रतम् मध्यरात्र इति मध्यारात्रे व्रतम् भवति भवति मध्यतः मध्यतोऽपि वा अन्येन अन्येन भुञ्जरे भुञ्जरे वर्धतः वर्धत एव एव तद् तदूर्जम् ऊर्जम् धत्ते धे भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवति भ्रातृव्याभिभूत्या इति भ्रातृव्याभिभूत्यै भवत्यात्मनाः आत्मना पराः परा अस्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवति गर्भः गर्भो वै दीक्षितो योनिः योनिर्दीक्षितमितम् दीक्षितमितम् यत् दीक्षितमितमिति दीक्षिताभिमितम् दीक्षितो दीक्षितविमितात् दीक्षितविमितात् प्रवसेत् दीक्षितमितादिति दीक्षितामितात् प्रवसेद्यथा प्रवसेदिति यथा योनेः योगे गर्भः गर्भस्कन्दति स्कन्दति तादृग् तादृगेव एव प्रवस्तव्यमात्मनः प्रवस्तव्यमिति आत्मनो गोपीथाय गोपीथायशः एष वै मयि व्याघ्रः व्याघ्रः कुलगोपः कुलगोपो यत् कुलगोप इति कुला गोपः यदग्निः अग्निस्तस्मात् तस्माद्विद् तस्माद यद्दीक्षितः दीक्षितः प्रवसेत् प्रवसेत्सः प्रवसेदिति प्रावसेत् स एनम् एनमीश्वरः ईश्वरो अनूत्थाय अनूत्थाय हन्तोः अनूत्थायत्यनोत्थाय हन्तोर्न न प्रवस्तव्यम् प्रवस्तव्यमात्मनः प्रवस्तव्यमिति प्रावस्तव्यम् आत्मनो गुप्त्यैः उपत्यैः दक्षिणतः दक्षिणदर्शये एतद् एतद्वै व्यै यजमानस्य यजमानस्यायतनम् आयतनग्रस्वे आयतनमित्या आयतनम् स्व एवायतने आयतने शये आयतन इत्यायतने श्रयेद्यम् शगे। अज्ञमभ्यावृत्य अभ्यावृत्तिशये अभ्यावृत्तेत्युभिः आवृत्य श्रिये देवताः देवता एव एव यज्ञम् यज्ञमभ्यावृत्य अभ्यावृत्त्यशये देवयजने पुरोहविषीति देवयजने इति देवायजने याजयेद्यम् यम् कामयेत कामयेतोप उपैनम् एलमुत्तरः उत्तरो यज्ञः उत्तरयज्ञदोत्तरः यज्ञो नमेत् नमेदभि अभिसुवर्गम् सुवर्गम् लोकम् सुवर्गमिति सुभागम् लोकम् जयेत् येदिति इत्येतत् एतद्वै वै पुरोहभिः पुरोहविर्देवयजनम् पुरोहविरिति पुरोहाहभिः देवयजनम् यस्य देवयजनमिति देवायजनम् यस्य होताः होता प्रातरनुवाकम् प्रातनुवाकमनुब्रुवन् प्रातनुवाकमिति प्रातः अनुवाकम् अनुब्रुवन् अग्निम् अनुब्रुवन्नित्यनुब्रुवन् अग्निमपः अपादित्यम् आदित्यमभि अभिविपश्यति विपश्यद्युप विपश्यतीति विपश्यति उपैनम् एनमुत्तरः उत्तरो यज्ञः उत्तरो यज्ञतो यज्ञो नभि अभिसुवर्गम् स्वर्गम् लोकम् स्वर्गमिति सुभागम् लोकम् जयति यत्याप्ते आप्ते व्यजने ये व्यजने याजयेत् देवयजन इति देवायजने याजे यद्भ्रातु्यवन्तम् भ्रातृर्यवन्तम् बन्धानाम् पन्थाम् वाधिस्पर्शेद् अधिस्पर्शेत्कर्तम् अधिस्पर्शयेदित्यधिस्पर्शयेत् कर्तम् वा यावत् यासे अनसे या तवै या तवै न रथाय रथायैतत् एतद्वै वा आप्तम् आप्नम् देवयजनम् देवयजनमाप्नोति देवयजनमिति देवायजनम् आप्नोत्येव एव भ्रातृव्यम् भ्रातृव्यम् नैनम् एनम् भ्रातृव्यः व्यः आत्मोपि आत्मोत्येको अन्नते एको अन्नते देवयजने एको अन्नत इत्येका उन्नते देवयजने याजयेत् देवयजन इति देवायुजने याजयेत् पशुकामम् पशुकाममेको एको अन्नताद्वयि एको अन्नतादित्येका उन्नतात् वयि देवयजनात् देवयजनादङ्गिरसः देवयजनादिति देवायजनात् अङ्गिरसः पशून् पशून् सृजन्त असृजन्त्रान्तरा अन्तरा सदोहव्युधाने सतोहव्युद्धाने उन्नतम् सदो इति सतः वव्युधाने उन्नतगस्यात् उन्नतमित्युदम् स्यादेतत् एतद्वि वा एको गन्नतम् एको गन्नतम् देवयजनम् एकोगन्नतमित्येका उन्नतम् देवयजनम् कृषुमान देवयजनमिति देवायजनम् कृषुमानेव कृषुमान् इति पृशुमान भवति भवति उन्नते देवयजने त्र्युन्नते देवयजने याजयेत देवयजनमिति यागेत् सुवर्गकामम् स्वर्गकामम् त्र्युन्नतात् स्वर्गकामति स्वर्गकामम् त्र्युन्नताद्वै त्र्युन्नतादिति त्रि उन्नतात् वै देवयजनात् देवयजनादङ्गिरसः देवे जनादिति देवयजनात् अङ्गिरसः स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति सुभागम् च आह्वनीयमित्या आह्वनीयम् च च हविर्धावमिति सोन्नतम् उन्नतृ स्यात् उन्नतमित्योन्नतम् सान्तरा अन्तरा हविर्धानम् च अभिर्धानमिति हविर्धान हभिःधानम् सदः सदश्च श्चार्हवर्हवति गार्हम् देवायजनम् स्वर्गमेव स्वर्गमिति स्वहागम् एव लोकम् लोकमेति एति प्रतिष्ठिते प्रतिष्ठिते रे वयजने प्रतिष्ठिते इति प्रतिष्ठिते देवयजने राजयेत् देवयजन इति देवायजने यात् प्रतिष्ठाकामम् प्रतिष्ठाकाम प्रतिष्ठाकाम् एतद्वै वै प्रतिष्ठितम् प्रतिष्ठितम् देवयजनम् प्रतिष्ठितमिति प्रतिष्ठितम् यत् देवयजनमिति देवयजनम् यत् सर्वतः एव तिष्ठति यश्यते यत्र यत्रान्या अन्याः अन्या अन्या ओषधयः अन्या अन्या इत्यन्याः अन्याः ओषधयो यतिशक्ताः यतिशक्ता स्युः यदिशक्ता इति अतिशक्ताः स्योष्ठत् तद्यागयेत् येत् प्रशुराम् पशुकाममेतत् पशुराममिति पशुरामम् एतद्वै वै पशूनाम् पशूरागम् रूपम् रूपकम् रूपेण रूपेणैव एवास्मै अस्मै पशून् पशूनः अवरुन्धे वृन्धे पशुमान् पशुमानेव पशुमान् इति पशुमान् एव भवति भवति निर्वृतिगृहीते निर्वृतिगृहीते देवयजमे निर्वृतिगृहीत इति निर्वृतिगृहीते देवयजमे राजयेत् देवयजन इति देवायजमे राजयेद्यम् यङ्कामयेत कामयेत निर्वृत्या निर्वृत्त्यास्य निर्वृत्त्यै अस्य यज्ञम् यज्ञम् ग्राहयेयम् इति इत्येतत् एतद्वै वै निरुतिगृहीतम् निरुतिगृहीतम् देवयजनम् निरुतिगृहीतमिति निरुतिगृहीतम् देवयजनम् देवयजनमिति देवयजनम् यत्सदृश्यैः सत्याः सत्या वृक्षम् निर्वृत्या निर्वृत्यैव निर्वृत्य एवास्यम् ग्राह इति ग्राहयति यावृत्ते देवयजने यावृत्तयति व्यावृत्ते देवयजने याचयेत् देवेजने इति देवायजने याजयेद्व्यावृत्ताम् व्यावृत्तामयम् व्यावृत्तामञ्ज त्रे पात्रे वा तप्ते तप्ते वामीमाकुंसेरन् मीमाकुंसेरम् प्राचीनम् प्राचीनमाहवनीयात् आह्वनीयाः प्रवणम् आह्वनीयादित्याः आह्वनीयात् रवणग् स्यात् रवणवधिप्रावणम् स्यात् प्रतीचीनम् प्रतीचीनम् गार्हपद्म्यात् दारः वर्त्यादेतत् दारः वर्त्यादि गारः वर्त्यात् एतद्वृत्तम् व्यावृत्तम् देवेजनम् व्यावृत्तमिति वि आवृत्तम् देवेजनम् वि देवेजनमिति देवायजनम् हि पाप्मनाः पाप्मना भ्रातव्येण भ्रातृर्येण आवर्तते वर्तते नात्रेः पात्रेण न तल्पे तल्पे मीमाकम् सन्देह कार्ये देवयचने देवयजने याजयेत् देवयजने इति देवायजने याजयेद्भूतिकामम् भूतिकामम् कार्यः भूतिकाममिति भूतिकामम् कार्यो वै वै पुरुषः पुरुषो भवति भवत्येव एवेतेव तेभ्य उत्तरवेदिः उत्तरवेदिः सिंहीः उत्तरवेदित्युत्तरावेदिः सिसिंहीरूपम् रूपम् कृत्वा कृत्वाभयान् उभयानन्तरा अन्तरापक्रम्य अपक्रम्या तिष्ठते अपक्रमेत्यपराक्रम्य अतिष्ठत्ते ते देवाः देवा अमन्यन्त अमन्यन्त यतरान् यतरान् वै वा इयम् इयमुपावर्स्यति उपावर्स्यति ते उपावर्स्यते वा आवर्स्यति त इदम् इदम् भविष्यन्ति भविष्यन्तीति तामुपा उपामन्त्रयन्त सा ब्रवीद अब्रवीद्वरम् परम् ऋणै ऋणै सर्वान् सर्वान् मया मया कामान् कामान् यस्यमस अस्य पूर्वाम् पूर्वान् तुमाह माग्नेः अग्ने राहुभिः आहुदिरश्नवतै आहुतिरिद्याहुरिः अश्ववता इति तस्मात् तस्मादुत्तरवेदिम् उत्तरवेदिम् पूर्वाम् उत्तरवेदिमित्युत्तरा वेदिम् उत्तर पूर्वामग्नेः अग्ने व्याघारयन्ति व्याघारयन्ति वारेव्रतम् व्याघारयन्ति इति व्याघारयन्ति वारे व्रतम् हि वारेव्रतमिति वारे व्रतम् न्यस्ति अस्ति संयया संयया परि परिमिते निमीते मात्रा मात्रैव एवास्यै अस्यै सा साधोः अथो युक्तेन युक्तेनैव एव युक्तम् युक्तमव अपरुन्धे वृन्धे वित्तायनि रिक्ताय नीमे रिक्तायनीति मेसि असीति इत्याह आहविक्ता वित्ता हि येनान् एनावत् आवद् तिक्तायनि तिक्ताय नीमे तिक्तायनीति रिक्तायनि मेसि असीति इत्याह आहविक्तान् तिक्तानि येनान् एनावत् आवदवताद् अवतान्मा मा नासितम् नासितमिहि इत्याह आह नासितान् नासितानुहि ह्येनान् एनावत् आवदवताद् अवतान्मा मा व्यसितम् यथितमिति इत्याह आहव्यसितान् यथितानुहि ह्येनान् एनावत् आवद्यतेः इदे अग्निः अग्निर्नभः नभो नाम नामाग्नेः अग्ने अङ्गिरः अङ्गिर इति हरदि एव अग्नयस्तान् तानेव एवा अवरुन्धे वृन्धे तूष्णीम् तूष्णीम् चतुर्थम् चतुर्थम् हरति अभरत्यनिवृत्तम् अनिवृत्तमेव अनिवृत्तमित्यनिः उक्तम् एवाव अवरुन्धे वृन्धे सिंहीः सिंहीरसिः Hey, she doesn't see असीति इत्याह आह शिगृं शिगृं रूपम् रूपम् कृत्वा कृत्वाभयान् गुर्त्व उभयानन्तरा अन्तरापक्रम्य अवक्रम्यातिष्ठत् अपक्रम्येत्यपाक्रम्य अतिष्ठ प्रथस्व प्रथस्वोरु उरुतेः यज्ञपतिः यज्ञपतिः प्रथताम् यज्ञपतिरिति यज्ञापतिः प्रथतामिति इत्याह आह यजमानम् यजमानमेव एव प्रजयाः प्रजया पशुभिः प्रजयेरित्प्राजयाः धुवा धुवासि असीति इति हन्ति धृत्येवेभ्यः देवेभ्यः शुम्भस्व शुम्भस्व देवेभ्यः देवेभ्यः शुम्भस्व शुम्भस्येति इत्यव अव चोक्षति उक्षति प्र चकिरति किरति शुद्ध्यैः शुद्ध्या इन्द्रघोषः इन्द्रघोषः त्वावसुभिः वसुभिः पुरस्कारात् वसुभिर्दिवसुभिः पुरस्तात् पातु पात्वि इत्याह आह दिर्घः दीर्घ एव दीर्घेति दिर्घः एवैनाम् एताम् प्रोक्षति देवान् देवादिश्च चेत् इदुत्तरवेदिः उत्तरवेदिरुपावमर्ति उत्तरवेदिरित्युत्तरवेदिः उपाववर्तिह उपाववर्ति वा आवमर्ति इहैव एवमि जयामहे जयामहा इत्यसुराः असुरा वज्रम् वज्रमुद्य उद्यत्य देवान् उद्य द्य। द्य। देवानभि अभ्यायन्द आयन्दतान् तानिन्द्रघोषः इन्द्रघोषो वसुभिः इन्द्रघोष इति इन्द्रघोषः वसुभिः पुरः वसुभिरिति वसुभिः पुरः स्यादप अपानुदत अनुदतमोजवाः मनोजवाः पितृभिर्दक्षिणतः पितृभिरिति दक्षिणतः प्रचेता रुद्रैः प्रचेता रुद्राचेताः रुद्रैः पश्चात् पश्चाद्विश्वकर्मा विश्वकर्मादित्यैः विश्वकर्मेति विश्वकर्मा आदित्यैरुत्तरतः उत्तरतो यत् उत्तरत इत्युदत्तरतः यदेवम् एवमुत्तरवेदिम् उत्तरवेदिम् प्रोक्षति उत्तरवेदिम् इत्युत्तरावेदिम् प्रोक्षति दिग्भ्यः प्रोक्षतीति प्रोक्षति दिग्भ्य एव दिग्भेति लिगेभ्यः एव तत् तद्यजमानः यजमान भ्रातृव्यान् भ्रातृव्यान्द्रन्द्रः इन्द्रोयतीन् यतीन् शालाभृकेभ्यः शालाभृगेभ्यः प्रायच्छत् अयच्छतान् ताम् दक्षिणतः दक्षिण उत्तरवेद्याः उत्तरवेद्या आदन् उत्तरवेद्या इत्युत्तरवेद्याः आदमेत् यत् प्रोक्षणीनाम् प्रोक्षणीनामुच्छिष्यः प्रोक्षणीनाम् इति प्रोक्षणीनाम् उच्छिष्येत तत् उच्छिष्येतेत्युदशिष्येत तद्दक्षिणतः दक्षिणतः उत्तरवेद्यै उत्तरवेद्यैनि उत्तरवेद्या इत्युत्तरवेद्यै नयेत् नयेदेव एव तत्र तत्र क्रूरम् क्रूरम् तत् शमयति यम् यम् दृश्यान् दृश्यार्थम् तन्ध्यायेत् ध्यायेत्सुता श्रुचैवैनम् एनमर्पयति अर्पयति इत्यर्पयति सोत्तरवेदिः उत्तरवेदिरब्रवीत् उत्तरवेदित्युत्तरावेदिः अब्रवीत् सर्वान् सर्वान्मया मया कामान् कामान् अश्मथेति इति ते देवाः देवा अकामयन्त देवा अकामयन्तासुरान् असुरान् ध्रातृव्यान् गाद्रव्यानभि अधिकमेव भवेमेति इति ते ते जुहवुः अजुहसि गृह्णीः सिगम्हेदसि असि सपद्मसाही सपद्मसाही स्वाहा सपद्मसाहीति सपद्मसाही स्वाहेति इति ते तेऽसुरान् असुरान् भ्रातृव्यान् भ्रातृव्यानभि अभ्यभवन् अभवन्ते तेऽसुरान् असुरान् भ्रातृव्यान् भ्रातृव्यान् अभिभोज अभिभोजा कामयन्त अभिभोजेत्यभिभोज कामयन्त प्रजाम् प्रजाम् विन्देमहि प्रजामिति प्राजा विन्देमहीति इजिते येजुहवोः अजुहवसिगंहीः सिगंहेरसि असि सुप्रजावनिः सुप्रजावनिस्वाहा सुप्रजावनिरिति सुप्रजावनिः स्वाहेति इजिते ते प्रजाम् प्रजामविन्दन्त प्रजाविदित्प्राजाम् अविन्दन्त ते ते प्रजाम् प्रजाम् वित्वा प्रजां, प्रजाविदि प्राजाम् वित्त्वा कामयन्त अकामयन्त पशून् पशून् विन्देमहि विन्दे महीति इजिरे तेजुहवोः अजुहवः सिंहीः जिगम्भीरसि असिरायस्पोषवनिः रायस्पोषवनिस्वाहा रायस्पोशवनिरितिरायस्पोषावनिः स्वाहेति इति ते ते पशून् पशून् विन्दन्त अविन्दते हे पशून् पशून् प्रतिष्ठांजत्प्रती ते ते अजुहोः अजुहसिगंहेः सिगंहेरसि अस्यादित्यः आदित्यमहिस्वाहा आदित्यमहिरित्यादित्यावनिः स्वाहेति इज ते तयिमाम् प्रतिष्ठाम् प्रतिष्ठामभिन्द प्रतिष्ठां विजित् प्रतीष्टाम् अभिन्दते तयिमाम् इमाम् प्रतिष्ठाम् प्रतिष्ठाम् भित्त्वा प्रतिष्ठांजत्प्रतिष्ठाम् वित्त्वा कामयन्त कामयन्त देवताः देवता आशिषः आशिष उप आशिष इत्या आशिषः उपेयाम यामेति इजिते ते जुहवुः अजुहवः सिगुहीः सिगुहीरसि अस्या आवः वह देवान् देवान् देवयते देवयते यजमानाय देवयते इति दे देवयते स्वाहा दे, स्वाहेति इजिते दे, ये देवता आशिषः आशिष उपा आशिष इत्या आशिषः उपायन् पञ्चकृतः पंचा, कर्तु व्याघारयति व्याघारयति पञ्च अक्षरा व्याघारयति इति आखारयति पञ्चाक्षरः पङ्क्तिः पञ्चाक्षरेन्तो यज्ञः यज्ञो यज्ञम् यज्ञमेव एवाव अवरुन्धे वृन्धेक्ष्णया ज्याघारयति तस्मात् जाघारयति इति आधारयति तस्मादक्षया अक्षया पशवः पशुवोऽङ्गानि अङ्गानि प्रहरन्ति हरन्ति प्रदिष्यत्यै प्रतिष्यत्यै भूतेभ्यः प्रदिश्यत्या भूतेभ्यस्वृजम् उद्गृह्णाति गृह्णाति ये य एव देवाः देवभूताः भूतास्तेषाम् तेषाम् तत् तद्भागधेयम् भागधेदन्तान् भागधेतिभागधेयम् तानेव एव तेन प्रीणादि बौधुद्रवान् बौरुद्रवान् परिधीन् परिधीन् परिधाति लोकानाम् लोकानाम् विधृत्य विधृत्या अग्नेः विधृत्या इति विधृतिः अग्ने श्रयः त्रयोध्यायागम् सः ज्यायागुम्सो भ्रातरः भ्रातर आसन्ते ते देवेभ्यः देवेभ्यो हव्यम् अव्यम् वहन्तः वहन्तः प्रमीयन्द अमीयन्दसः सोऽः अर्गिरभिभेद् अपिभेदित्थम् इत्थम् इत्थम वावस्य आर्तिम् आर्तिमा आरिष्यति अरिष्यतीति सह स निलायत निरायतसः याम् वनस्पतिषु वनस्पतिष्वसत् अवसत्ताम् तामूतुद्रौ ऊतु द्रौ याम् यामोषधीषु आगम् सुबन्ध्यते जने सुगन्ध्यते जनेयाम् सुगन्धिते जन इति सुगन्धिते जने याम् पशुषौ पशुषा शृङ्गे शृङ्गेतम् शृङ्गे इति शृङ्गेरताः देवताः प्रैषम् प्रैषमेच्छन् प्रैषमिति प्रैशम् ऐच्छन्तम् तमनु अन्वविन्दन् अविन्दन्तम् तमब्रुवन् अब्रुवन्व ब्रुवनः नवर्तस्वस्वम् इति सः सोऽ अब्रवीद्वरम् वरम् ऋणै रणै यदेव एव गृहीतस्य गृहीतस्याहुजस्य परिधि बहिःपरिधि बहिष्परिधिः स्कन्दात् बहिष्परिधिः परिधि स्कन्धात्मे भ्रातृणा भ्रातॄणाम् भागधेयम् भागधेयमसत् भागधेयमितिभागाधेयम् असदिति इति तस्मात् तस्मादि यद्गृहीतस्य गृहीतस्याहुतस्य अहुतस्य बहिःपरिधि बहिःपरिधि स्कन्दति बहिःपरिधि इति बहिः परिधि स्कन्दति तेषाम् तेषाम् तद् तद्भागधेयम् तानेव एव तेन तेन प्रीणादि प्रीणादिसः सोऽमन्यत अमन्यतास्थन्वन्दः अस्थन्वन्दो मे अस्थन्वन्द इत्यस्थन् वन्दः मे पूर्वे पूर्वे भ्रातरः भ्रातरः प्र प्रामेशत अमेशदास्थानि अस्थानि शातयै शातया इति सह स यानि यान्यस्थानि अस्थान्यशातयत अशातयत तद्भूतधृ अभवद्यत् यन्मागुंसम् मागुंसमुपमृतम् उपमृतम् तत् उपमृतमित्युपामृतम् तद्गुल्गुलु गुल्गुलु यत् यदेतान् एतान् सम्भारान् सम्भारान् सम्भरति सम्भारानिति सम्भारान् सम्भरत्यग्निम् सम्भरति सम्भरति अग्निमेव एतत् तत्सम्भरत् सम्भरति भरत्यग्नेः अग्नेः पुरीषम् पुरीषमसि असीति इत्याह आहाग्नेः अग्नेर्हि ह्येतत् एतत्पुरीषम् पुरीषम् यत् यत्सम्भाराः सम्भारा अथोः सम्भारा इति सम्भाराः अथो खलु अथो इत्यथो ख्वाहुः आहुरेते एते वावीनम् ेन ते ते भ्रातरः भ्रातरः परि परिषेरे शेरे यत् यत्पौतुद्रवाः पौतुद्रवाः परिधयः परिधय इति परिधेति परिधयः इति बद्धमव अवस्यति इति वरुणपाशाद् वरुणपाशादेव अरुणपाशादिति वर्णापाशाद् एवैने एने इत्येने मुञ्चति प्र प्रणेनेति मेध्ये मेध्ये एव मेध्ये इति मेध्ये एवैने एे करोति एने इत्येने करोति सावित्र्या सावित्र्यर्च रुचा हुत्वा कृत्वा हविर्धाने प्र अविर्धाने इति हविः प्रवर्तयति वर्तयति सवितप्रसूदः सवितप्रसूत एव सविदर्प्रसूत इति सवित्रप्रसूदः एव प्रवर्तयति वर्तयति वरुणः वरुणो वा एषः दुर्वाग दुर्वागु दुर्वागुभयतः दुर्वाग इति दोहो वाक् उभयतो बध्वयत् यदक्षः अरक्षः सः स यत् यदुत्सर्जयेत् उत्सर्जेद्युदुसर्जेत् यजमानस्य गृहान् गृहान् अभ्युत्सर्जेत् अभ्युत्सर्जेत् सुवाग् अभ्युत्सर्जेदित्युभयुत्सर्जेत् सुभाग्रेव सुभागिरिसुवाग् दुर्यान् दुर्यागुम्मा तावद वदेति इत्याह आह गृहाः गृहा वै वै दुर्याः दुर्याः शान्त्यै शान्त्यैपत्नी पत्न्युप उपालक्तिपत्नीः पत्नीः सर्वस्य सर्वस्य मित्रम् मित्रम् मित्रत्वाय मित्रत्वायेत् मित्रत्वायति मित्रात्वाय यद्वै वै पत्नी यज्ञस्य यज्ञस्य करोति करोति मिथुनम् मिथुनम् तत् तरथोः अथो पत्न्याः अथो इत्यथोः पत्न्या एव एवैषः एष यज्ञस्य यज्ञस्य अन्वारम्भ अन्वारम्भो न वक्षन्ति आरम्भः अनवच्छित्यै वर्त्मना अनवच्छित्या इत्यर्त्मना वै वा अन्वित्या अन्वित्यंसि रक्षाकंसि दिघाकुंसन्सन्ति वैष्णवीभ्याम् वैष्णवीभ्याम् ऋग्भ्याम् ऋग्भ्याम् वर्त्मनोः ऋग्भ्यामित्रेभ्याम् वर्त्मनोर्जुहोति जहोति यज्ञः यज्ञो वै वै विष्णोः यज्ञादेव देव रक्षाकंसि रक्षाकस्य वा अपहन्ति ौनाम् आहुलित् आहुलिमित्याहयादन्धः अन्धोधर्युः अध्वर्युः स्यात् स्याद्रक्षागुंसि रक्षागुंसि यज्ञम् यज्ञम् हन्यः अन्युर्हि उपास्य उपास्येत्युपास्य जुहोत्यग्निवति अग्निवत्येव अग्निवतीत्यग्निवति एव जुहोति जुहोतिर नान्धः अन्धोः अर्धर्युः अर्धर्युर्भवति भवति न यज्ञम् यज्ञकम् रक्षाकुंसि रक्षाकुम् सिद्धन्ति घन्ति प्राचीः प्राचीप्रा प्राची प्राची प्रयतम् इदमद्धरम् अर्धरम् कल्पयन्ति इति कल्पयन्तीति कल्पयन्ति इत्याह आह सुवर्गम् स्वर्गमेव स्वर्गमिति स्वहागम् एवैनेः एने लोकम् एने इत्येने लोकम् गमेति गमयत्यत्र अत्र रमेधाम् रमेधाम् वर्ष्पन् वर्ष्पन् पृथिव्याः पृथिव्या इति इत्याह आह वर्ष्पर्ष्प हि एतत् एतत्पृथिव्याः पृथिव्यायत् यद्देवयजनम् देवयजनगुं शिरः देवयजनमिति देवायुजनम् शिरो वै वा एतद् एतद्यज्ञस्य यज्ञस्य यत् यद्धविर्धानम् हविर्धानम् दिवः हविर्धानमिति हविःधानम् दिवो वा विष्णो विष्णपुत उत वा पृथिव्याः पृथिव्या इति इत्याशीर्पदया आशीर्पदयच्च आशीर्पदयेत्याशीः प्रदया न च दक्षिणस्य दक्षिणस्य हविर्धानस्य अभिर्धानस्य मेधी अभिर्धानस्य हविधानस्य मेधीन्नि मेधीन निहन्दि हन्दिशीर्षदः शीर्षदः एव यज्ञस्य यज्ञस्य यजमानः यजमान आशिषः आशिषो वा आशिष इत्यानाशिषः अपवृन्धे वृन्धे दण्डः दण्डो वि आरः ओपरस्तृतीयस्य तृतीयस्य हव्यधानस्य अभिर्धानस्य वषट्कारेण अभिर्धानस्य यदि हविहिधानस्य ऋषत्कारेणाक्षम् ऋषत्कारेणेति विषयेकारेण अक्षमर्चिनत् अर्चिनद्यत् यत् तृतीयम् तृतीयम् शरिः शरीरः व्यर्धानयोः अभिर्धानयोदा ह्रियते अव्यधानयोतिहविहिधानयोः तदा ह्रियते तृतीयस्य तदा ह्रियते इत्युत् आह्रियते शिरः अवरुद्ध्या इत्यवावृद्धिः शिरोऽपि एतत् एतद्व्यज्ञस्य यज्ञस्येत् यद्ध व्यर्धानम् विर्धानम् विष्णोः अव्यधानमितिहवेधानम् विष्णो रराटम् रराटमसि असि विष्णोः विष्णोः पृष्ठम् पृष्ठमसि असीति इत्याह तस्मात् तस्मादेतावद्धा एतावद्धा शिरः एतावद्धेत्येतावत् तथा शिरो विस्यूतम् विस्यूतम् विष्णोः विस्यूतमितिवेस्यूतम् विष्णो स्योः स्यो विष्णोः विष्णो ध्रुवम् ध्रुवसिह वैष्णवम् वैष्णवम् हि देवतया देवतया व्यर्धानम् अभिर्धानयम् अभिर्धानमिति हविधानम् यम् प्रथमम् प्रथमम् ग्रन्थिम् ग्रन्थिम् ग्रथ्नीयात् रथ्नीयाद्वित्तम् तन्न न विस्रकंसयेत् विस्रकंसयेतमेहेन विश्रकुंसयेदिति विश्रकंसयेत् अमेहेनार्ध्वर्युः अर्ध्वर्युः प्रमीयेत मीयेत तस्मात् तस्मात् सः स देवस्य त्वा सवितुः सवितः प्रसवे प्रसवैति प्रसवैति प्रासवे अभ्रिमा आदत्ते दत्ते प्रसोद्य प्रसोद्या अश्विनोः प्रसोत्यादिति प्रासौति बाहुभ्यामिति बाहुभ्यामिति बाहोऽभ्याम् इत्याह आहाश्विनौः अश्विनौ हि हि देवानाम् देवानामध्वर्यू अध्वर्यू आस्ताम् अध्वर्यू इत्यध्वर्यू आस्ताम् पूर्षः पूर्षो हस्ताभ्याम् भ्या, हस्ताभ्यामिति इत्याह आहयत्यै यत्यै वज्रः वज्रैव इव वै एषा एषा यत् रः अभ्रिरभिः अभ्रिरसि असि नारिः इत्याह आहशान्ति शान्ति काण्डे काण्डे काण्डे काण्डे वै काण्डे काण्डे काण्डे काण्डे वै क्रियवाणे क्रियमाणे यज्ञम् यज्ञकम् रक्षाकुंसि रक्षाकुंसि लिखाकुंसन्ति लिखाकुंसन्ति परिलिखितम् परिलिखितकम् रक्षः परिलिखितमिति परिलिखितम् रक्षः परिलिखिताः परिलिखितारादयः परिलिखिता इति परिलिखिताः अरादयति इत्याह आह रक्षसा रक्षसामपहत्यै अपहत्या इदम् अपहत्या इत्यैगम् रक्षसः रक्षसो ग्रीवाः ग्रीवा अपि अपिक्रन्थामि यः योऽस्मान् अस्मान्द्वेषी द्वेष्ट्यम् यम् च वयम् अयम् विष्मः विष्मयति इत्याह आहद्वौ द्वौ बाल बालपुरुषौ पुरुषौयम् यम् चैव एव द्वेष्टि द्वेष्ट्यः यश्चनम् द्वेष्टि द्वेष्टितयोः तयोरेव एवानन्तरायम् अनन्तरायम् ग्रीवाः अनन्तरायमित्यनन्दः आयम् ग्रीवाः क्रन्दतित्वा अन्तरिक्षाय त्वा तापृथिव्यै पृथिव्यै त्वा त्वेति इत्याह आहेभ्यः एभ्य एवैनाह एनाम् लोकेभ्यः लोकेभ्यः प्रोक्षति उक्षति परस्ताद परस्तादर्वाचीम् अर्वाचीम् प्र प्रोक्षति उक्षति तस्मात् तस्मात् परस्तात् परस्तादर्वाचीम् अर्वाचीम् मनुष्याः मनुष्या ऊर्जम् ऊर्जमुपजीवन्ति जीवन्ति क्रूरम् क्रूरमिव इवै वा एतत् एतत्करोति करोति यत् यत्खनति खनत्यपः अपो वा अपनयति शान्तिः शान्त्यैरवमतीः यवमतीरव यवमतीवामती अवनयति नयत्यूर्ग् ऊर्ध्वै वैयवः यवऊर्ग् ऊर्गुदुम्बरः उदुम्बर ऊर्ज ऊर्जैव एवोर्जम् ऊर्जगंसम् समर्धयति अर्धयति यजमानेन यजमानेन संयिता संयुतौदुम्बरी संयतेति संयिता औदुम्बरी भवति भवति यावान् यावानेव एव यजमानः यजमानस्तावतीम् तावतीमेव एवास्मिन् अस्मिन्नोर्जम् ऊर्जम् दधाति दधाति पितृणा पितृणाकम् सदनम् सदनमसि असीरि इति बर्हि बर्हिर्व अवस्तुनादि स्तनादिदेवत्यम् वृदेवत्यकम् हि दृदेवत्यमितिदेवत्यम् येतत् एतद्यत् यन्निखातम् निखातम् यत् निखातमिति निखातम् यद्बर्हि बर्हिरनवस्थीर्य अनवस्थीर्यमिनयात् अनवस्थीर्ये ृदेवत्याः पितृदेवत्या निखाता पितृदेवत्येति पितृदेवत्याः निखाता स्यात् निखातेति निखाताः स्याद्बर्हिः बर्हिरवस्तीर्य अवस्थीर्यमिनोति अवस्थीर्येत्यवास्तीर्य विनोत्यस्याम् तस्यामेव एवीनाम् एनाम् मिनोति मिनोत्यथो अथो स्वारुहम् अथो एथो स्वारुहमेव स्वारुहमिति स्वारुहम् एवैनाम् करोति करोत्युत् उद्दिमम् विलग्गस्तभाया आन्तरिक्षम् अन्तरिक्षम् वृण वृणेति इत्याह आहीषाम् एषाम् लोकानाम् लोकानाम् विधृत्यै विधृत्यै द्युतानः विधृत्या इति विधृत्यै द्युतालस्त्वमारुतः इत्याह आहद्युतालः द्युतालोः तस्मात् वै वै मारुतः मारुतो देवानाम् देवानाम् औदुम्बरीम् औदुम्बरीम् विनोदि एवैनाम् एनाम् मिनोति मिनोति ब्रह्मवनिम् ब्रह्मवनिन् द्वा ब्रह्मवनिमिति ब्रह्मविम् त्वा क्षत्रवनिम् इत्याह आह यथायजुः यथायजुरेव यथायजुर्यथायजुः एतद्धृतेन घृतेन द्व्यावा पृथिवीथिवीथिवी इति द्वापृथिवी आप्रणेथाम् प्रणेधामिति इत्यौदुम्बर्याम् औदम्बर्याम् जुहोदि्या वा पृथिवी या रसेनानक्ति आन्तमन्वःस्रावयति आन्तमित्या आन्तम् अन्ववस्रावयत्यान्तम् अन्ववःस्रावयति इत्यनौ अवस्रावयति आन्तमेव आन्तमित्या अन्तम् एव यजमानम् यजजमानम् तेजसा तेजसा रक्ति अनक्तेन्द्रम् असीति इति छदिः छदिरथि अधिनि निदधाति तथात्यैन्द्रम् ऐन्द्रकं हि हि देवतया देवतया सदः सतो विश्वजनस्य विश्वजनस्य छाया विश्वजनस्येति विश्वजनस्य छायेति इत्याह आह विश्वजनस्य विश्वजनस्य हि विश्वजनस्येति विश्वजनस्य येषा एषा छाया छायाचलः सदो नवचरि नवचरि रेजस्कामस्य नवचलि नवचरि तेजस्कामस्य विनयात् तेजस्कामस्य लेजः कामस्य ी त्रिवृतेरिवृत तेजस्येव एव भवति भवत्येकादशी एकादशी इन्द्रियकामस्य एकादश छरीत्येकादशाक्षरी इन्द्रियकामस्य एकादशाक्षरा इन्द्रियामस्येति इन्द्रियाकामस्य एकादशाक्षरा तिष्ठक् एकादशाक्षरे इत्येकादश अक्षरः कृष्णकेन्द्रियम् इन्द्रियम् तृष्ट कृष्णकेन्द्रियाभिः इन्द्रियाव्येव एव भवति भवति पञ्चदशति पञ्चदशशती भ्रातृव्यवतः पञ्चदशीति पञ्चदशा छली भ्रादृव्यवधः पञ्चदशः भ्रादृव्यवध इति भादुर्व्यावतः पञ्चदशो वज्रः पञ्चदश इति पञ्चदशः वज्रो भ्राद्रव्याभिभवत्यै भ्राद्रव्याभिभवत्यै सप्तदश प्रजाकामस्य सप्तदश प्रजाकामस्य सप्तदशः प्रजाकामस्य सप्तदशः सप्तदशे हरिः सप्तादशः प्रजापतेः प्रजापृतेः प्रजापते हृदत्प्राप्तिः प्रजापते राः प्रजापते हृत्प्राप्तेः आध्यायमिवंशति सरि एकविंशतिशरी प्रतिष्ठा कामस्य एकविंशतिशरी एकविंशति चरि प्रतिष्ठा कामस्यैकविदुंशः प्रतिष्ठा कामस्य प्रतिष्ठा कामस्य एकविंशमानाम् एकविंश इत्येका विपुंशः वै वै सदः सद ऊर्क् ऊर्गुदुम्बरः उदुम्बरो मध्यदः विनोदिमध्यतः मध्यत एव प्रजानाम् प्रजानामूर्जम् प्रजानामिति प्राजानाम् ऊर्जम् तस्मान्मध्यतः मध्यत ऊर्जा ऊर्जा भुञ्जते भुञ्जते यजमानलोके यजमानलोके वै यजमानलोकै यजमानलोके वै दक्षिणानि दक्षिणानि श्रीगुंसि श्रीगुंसि भ्रातृव्यलोके भ्रातृव्यलोक उत्तराणि भ्रातृव्यलोक इति भ्रातृव्यलोके उत्तराणि दक्षिणानि उत्तराणि इत्युदत्तराणि दक्षिणान्युत्तराणि उत्तराणि करोति उत्तराणि करोति यजमानम् यजमानमेव एवायजमानात् अयजमानादुत्तरम् उत्तरम् करोति उत्तरमित्युदोत्तरम् करोति तस्मात् तस्माद्यजमानः यजमानो यजमानात् अयजमानादुत्तरः उत्तरोन्तर्वर्तान् उत्तर इति दोसरः अन्तर्वर्तान् करोति अन्तर्वर्तान् इत्यन्तः वर्तान् रोदिव्यावृत्त्यै व्यावृत्त्यै तस्मात् व्यावृत्यावृत्त्यै तस्मादरण्यम् अरण्यम् प्रजाः प्रजा उप प्रजा इति प्राजाः उपजीवन्ति जीवन्ति परि परि त्वागिर्वणः गीर्वणो विरः इत्याह आह यथा यजुः यथा यजुरेव यथा यजुरि यथा यजुः एवैतत् एतदिन्द्रस्य इन्द्रस्य स्यूः इन्द्रस्य ध्रुवम् ध्रुवमसि असीति इत्याह आहैन्द्रम् ऐन्द्रम् हि देवतया देवतया सदः सतोऽयम् यम् प्रथमम् प्रथमम् ग्रन्थिम् ग्रन्थिम् ग्रथीयात् रथ्नीयादि यत्तम् तन्न न विसृगंसयेत् विसृंस एतनेन विस्रगंसयेत् विश्रगंसयेत् अमेहेन ध्वर्युः प्रीयेतये शिरोऽपि वा एतत् एतद् यज्ञस्य यज्ञस्यर्धानम् अव्यधानम् प्राणाः अव्यहविधानम् प्राणा उपरवाः प्राणा इति प्राणाः उपरवाः हविर्धाने उपरवा इति वारवाः हविर्धाने खायन्द्रे हविर्धान इति हविः तस्मात् तस्माच्छेषन् शेषन् प्राणाः प्राणाधस्तात् प्राणा अधस्तात् खायन्द्रे खायन्द्रे तस्मात् तस्मादधस्तात् अधसार्षः शीर्षः प्राणाः प्राणारक्षोणः प्राणा इति प्राणाः रक्षोहणो वलघहनः रक्षोहण इति रक्षवहनः अलगहनो वैष्णवान् अलगहन इति वलगहनः वैष्वान् खनामि खलामीति इत्याह आह वैष्वाः वैष्वा हि देवतया देवतयोपरवाः उपरवा असुराः उपरवा इत्युपरवाः असुरा वै वै निर्यन्तः प्राणेष्विति प्राणेषु वलगान् वलगानिति वलागान्यखनन् अखनन्दान् तान् बाहुमात्रे बाहुमात्रेऽनु बाहुमात्र इति बाहुमात्रे अन्वविन्दन् अविन्दम् तस्मात् तस्माद्बाहुमात्राः बाहुमात्राः खायन्ते बाहुमात्रा इति बाहुमात्राः खायन्त इदम् इदमहम् अहन्तम् तम् वरगम् वलगमिति वलाकम् उद्वपामि वपामियम् यन्नः नः समानः समानोऽयम् यमसमानः असमानो निचखान चखानेति चखानेति निचखान इत्याह आहद्वौ द्वौ वाव वावपुरुषौ पुरुषौ यश्च तैव एव समानः समानोयः यश्च चासमानः असमानोऽयम् यमेव एवास्मै अस्मै तु तौ वलकम् अलकम् निखनदः अलकमिति बलाहम् निखनदस्तम् निखनत इति निखनदः तमेव एवोत् उद्वपति अपति सम् सन्दृणत्ति विनद्यतस्मात् तस्मात्सन्तृण्णाः सन्तृह्णा अन्तरतः सन्तृह्णा इति सन्तृण्णाः अन्तरतः प्राणाः प्राणा न प्राणा इति असम्भिन्नाः प्राणाः असम्भिन्ना इत्यसम्भिन्नाः प्राणा अवनयति नयति तस्माद् तस्मादार्द्राः आर्द्रा अन्तरदः अन्तरतः प्राणादिप्राणाः यवमदीरव यवमतीरिवामतीः अवनयति नयत्योर्ग् वोर्घ्वै वैयवः यवः प्राणादिति प्राणाः उपरवाः प्राणेषु उपरवा इति प्राणेष्वेव प्राणेष्विति प्राणेषु एवोर्जुम् ऊर्जुम् दधाति दधाति बर्हिः बर्हिरवा अवस्त्रणादिनादि तस्मात् प्राणाः प्राणाः आद्येन व्याघारयति व्याघारयति तेनः व्याघारयतीति वि आघारयति तेजोवै वा आज्यम् आज्यम् प्राणाः प्राणा उपरवाः प्राणा हि प्राणाः उपर्वाः प्राणेषु उपरवा इत्युपर्वाः प्राणेष्वेव प्राणेष्विति प्राणेषु एव तेजः तेजोदधाति दधादिहनुः अनो वै अनूदिहनुः वा एते एते यज्ञस्य एते इत्येते यदधिशवणे अधिशवणेन अधिशवणे इत्यधिशवने न नसं सन्दृणति तृणत्यसन्तृण्णे असन्तृण्णे हि असन्तृह्णे इत्यसन्तृण्णे हि हनुः अथो हलो अथो खलु अथो इत्यथो खलु दीर्घसोमे दीर्घसोमे सन्द्रद्वेः दीर्घसोमै दीर्घसोमे सन्द्रद्वे धृत्यै सन्द्रद्वे इति सन्दृद्वेः धृत्यै शिरः शिरोपि वा एतद् एतद्व्यज्ञस्य यद्धव्यधानम् अव्यधानम् प्राणाः अव्यर्धानमितिहविहिधानम् प्राणा उपरवाः प्राणा इति प्राणाः उपरवाहनुः उपरवा इत्युपारवाः हनू अधिशवणे हनू इति हनुः अधिशवणे जिह्वा अधिशवणे इत्यधिशवने जिह्वाचर्म चर्मग्रावाणः द्रावाणो दन्ताः दन्तामुखम् मुखमाहवनीयः आहवनीयो नासिका आहवनीय इत्या आहवनीयः नासिकोत्तरवेदिः उत्तरवेदिरुदरम् उत्तरवेदिरित्युत्तरवेदिः उदरपुंसदः सदो यदा यदा खलु खलु वै वै जिह्या जिह्वाया दत्सुत्स्विति खादति खादत्यथाति गच्छति यदा यदा मुखम् मुखम् गच्छति गच्छत्यथ अथोदरम् उदरम् गच्छति गच्छति तस्मात् तस्मात् हव्ये हव्ये चर्मन् ह्यर्धानैति शर्मन्नधि अभिग्रावभिः रावभिरभिषुत्य रावभिरधिग्रावाभिः अभिषुत्याहवनीये अभिषुत्येत्यभिषुत्य आहवीये हृत्वा आह्वनीयैत्याहवनीये हृत्वा प्रत्यञ्जः प्रत्यञ्जः परेत्य परेत्य सरसि परेद्येति परा इत्यः यो वै वै विराजः विराजो यज्ञमुखे विराज यज्ञमुखे लोऽहम् यज्ञमुख यज्ञामुखे लोऽहम् वेद वेददुहे दुह एव एवैनाम् एनामियम् इयम् वै वै विराट् विराट् तस्यै विराट् इति विराट् तस्यै त्वग् त्वक्च्चमा अधिशवणे स्तनाः अधिशवणे इत्यधिशवने स्तनावर्वाः परवा ग्रावाणः बर्वा इत्युब वत्स ऋत्विजः ऋत्विजो दुहन्ति दुहन्ति सोमः सोमः पयः पयोयः यदेवम् एवम् वेद वेद दुहे दुह एवैनाम् एनामित्येनाम् ओष्ठकाण्डे द्वितीयः प्रश्नः समाप्तः